Oh पान् प्रेमन् सादयाम यपान् त्वन् सादयाम यपान् त्वा भस्मन् सादयाम्यपान् त्वा ज्योतिषदादयाम न् त्वाजोनौसादयाम्यमान् त्वापाशनिसादयामि कायत्रे छन्दत्रष्ट्छन्दो जगतीच्छन्दो द्रष्टुच्छन्दः पन्तच्छन्दः अयम् पुरोभवस्तस्य प्राणोभौ वा यनोपसन्तः प्राणायनो गायत्री वा हन्तेकायत्र्यैकायत्रङ्गायत्रात् गा पाकुंशु पाकुंशास्त्रवत्रवतो रसन्तरगौणसन्तरात्मधिष्ठ प्रजापतिगृहीतरा प्राणम् गृह्णामि प्रजाभ्योऽयम् दक्षिणा विश्वकर्मादस्य मनोभैष्वकर्मणम् ग्रहेष्म वामे द्रष्टुभ ऐणमैड ्यामात् पञ्चदशः पञ्चदशात् गृह गृह भरद्वाद प्रजापतिगृहीतयात्मयामारह्णामि प्रजा पश्चाद् विश्वव्यजात्तस्य लक्षम वैष्वव्यरतं वर्णानि जगत्यालक्षमक्षमात् शुक्र शुक्रात् सप्तदशः सप्तदशाद् वैलोकं वैलोकाद् विश्वामित्रय प्रजापतिगृहीतयात्मजा क्षु गृह्णामि प्रजाभ्य इदमुत्तरात् सुभस्तस्य श्रोत्रगं सौवशौद्युभारद्युभस्पारद्य स्वाराजय कविपुंसजय कविपुंसाद्वै राजं वै राजा प्रजापरिगीतरत्वया श्रोत्र गृह्णामि प्रजाभ्य इदमुपरिपदिनः पङ्के पङ्के धनवता त्रयणाः तृणवत्रयस्त्रिनुषा तृणवत्रयस्त्रिणुशाभ्याम क्वरदेवतेशाः क्वरदेवताभ्याः विश्वकर्मरिण्यः प्रजापतिगृहीतया त्वजावाचम् गृह्णामि प्रजाभ्यः राज्ये दिशाम् वसन्तरतोनामज्ञता ब्रह्मद्रविणम् चमत्स्तो वस्तौ पञ्चदशवर्तनस्त्रवियः कृतवयानाम् पुरो वातो वादस्ता न दक्षिणादिशाम् नामिन्द्रो देवताः क्षत्रम् द्रविणम् पञ्चदशस्तोमस्तौ सप्तदशवत्तयज्ञवाग्मयस्थेतायानः वातो दक्षिणाद्वातोपातस्सनाथवप्रदेजेतुजाम् विश्वे देवा देवता विद्रविणगुं सप्तदधस्त्वमस्वभुवेकविवंशवर्तरि स्त्रिवत्सो वयोपरोनाम् वा पश्चाद् वातो वातो हो नृदयुजां सरतूनाम् मित्रावरुणो देवता पुष्टन्द्रविणवेकविकुंशस्त्वमस्वपुत्र नववर्तरिस्तुर्यवान् ्रविणन्त्रमुत्रयश्चिं सवत्रजानां विष्पग् वातो वातस्तु पन्दरः पिता महास्परे वरे ते नो भन्तस्मिन् ब्रह्मन्नस्मिन् रोधायामस्मिन् कर्मन्नस्या ध्रुवक्षतिध्रुवयो द्रम ध्रुवासिद्ध्रवायो निवासीजसाध्याम्बम् पुरत्वा रश्मिना ध्र्योदालय मिहत्वा क्षेदक्षयक्षपिते हदेतदेवत्रा पृथिबे बृहदे नुवासम् विशस्वपिदेवैः सो न वार्योदादयता मिहत्वाः पुरायिलेव सुमतेवयो योधारयन्नावद्भवबहुलगौ शरीरम् आपामजन्दम् मजम् बाधमाना राजःपोष यज्ञपति मा भजन्ते सुवर्धे हि यजमानाय पोषमश्मिनाः भर्योधादयदा मिहत्वाः वया ग्ने पुरेशमचिदर्विणा नेतान्ताभिन्तु देवाः सोमवृत्था प्रजापदस्मीणा विधस्वास्मिना पर्योतानेता विहत्वा दिवोमोर्धा च पृथिव्यानाभिर्मिविष्टम्भरे दिशामधिपत्ने भुवनानाम् ओर्म्यद्रप्सो अपामसि विश्वकर्मा धरिना भर्योदारयदामिहक्त्वा सजोर्दुभिः सजोर्विधाभिः सजोर्वसुभिः सजो रुद्रे सजोरादित्ये सजोर्विश्वे देवे स योर्देवे सजोर्देवे वयोर्नाथैरमये द्वाैश्वानश्मिना भर्योदानयना विहत्त्वा प्राणम् मे बाह्यपानम् मे पाहि ज्ञानम् मे पाहि चक्षुर्म्या विभाहि श्रोत्रम् मे श्लोकयापस्मिन् वौषधेर्यन्वद्यभाष्पा चतुःपादव निवो वृष्टिमेरया प्रनिर्वयस्पृष्टुप्छन्दो विद्यमात्मयो विराच्छन्दः पञ्च निर्वयो गायत्रे छन्दश्च भत्सो वय पुष्पहाछन्दस्तुर्यमात्मयो मृष्टुच्छन्दः पष्ठवाद्मजो मृगते छन्द योऽधिष्ठन्दस्य कुम्भो वयश्च तिष्ठन्दो विष्टम्भो वयोऽधिपतिष्ठन्दः क्षत्रम् वयो वयम् छन्दो विश्वकर्मा वयः परमेष्ठे छन्दो मोर्धा वयः प्रजापतिष्ठन्दः इन्द्राग्ने अव्यथमानामिष्टकान् दृगो हदम् युवम् पृष्ठेरद्यावापृथिवे अन्तरिक्षम् च विभाषता विश्वकर्मादयत्वरिक्षस्य पृष्ठे बृहस्पदे प्रथस्पदे भास्पदेवायाभ्याम्भापृथिवी भोर्वन्तरिक्षमन्तरिक्षै यच्छान्तरिक्षन्दृगौ हान्तरिक्षम् वाहि गौ विश्वस्मै प्राणाय पानाय ज्ञानाय गानाय प्रतिष्ठायै चरित्राय मायुस्वाभिमारुवत्य स्वस्त्या मे ुभाषी राज्ञप्रा चेदर्किनादिकृते चेति स्वराढस्तुते चेदिकधिपत्यधिबृहचेति कायम् मे पाहि प्राणम् मे पाह्यमाणम् मे पाहि ज्ञानम् मे पाहि चक्षुर्मे पाहि मे पाहि ममामे जन्मवाचम् मे पिण्पात्मानम् मे पाहि ज्वोजम् मे मा छन्दः प्रमाछन्दः प्रतिमा छन्दस्तेविश्छन्दः पञ्चश्छन्द उष्ण्यः छन्द बृहते छन्द हृष्ट्छन्द विराच्छन्दो गायत्रे छन्दः स्पृष्ट्छन्द जगते छन्दः पृथिवे छन्दो परिक्षन्द व्योच्छन्द समाश्चन्द नक्षत्राभिछन्द मनश्छन्द अर्यर्देवतावातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता नित्या देवता विश्वे देवा देवता भरतो देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता मूर्धानिना ध्रुवादिधरुणा यन्त्रिशगणि त्वा क्षेमायत्वा यन्त्रीणा ध्रुवादिधरणी धिखर्यायुषे त्वा वर्तसे त्वसे त्वामरायत्वा आशस्त्रवर्भान्तः पञ्चदशोऽपसप्तदशः प्रदोक्तरष्टादशस्तपो नवदशोऽभिभर्तस्तिपुंसो भरणरेकविपुंसो वर्च द्वा विपुंशः धर्पश्च द्रष्टामः भागोदिदेक्षाया आधिपत्यम् ब्रह्मस्पदम् प्रभुत्स्त्वम इन्द्रश्च भागोदिवृष्टामाधिपत्यम् क्षत्राज्ञस्पृदम् पञ्च दशस्तोमो दशक्षताम् भागो जातुराधिपत्यम् च निग्रस्पृदकम् सप्तदशस्तोमो मेत्रश्च भागोदिवर्णश्चाधिपत्यम् दिवो वृष्टर्वादास्पृदानेकविकंशस्तोमो नित्यै भागोदि पोष्णाधिपत्यमोजस्पृतम् तृणमस्तोमाव भागोदिरुर्गाणामाधिपत्यं चतुष्पास्पृतञ्चतुर्विपुंशस्तो महादित्यानाम् भागोदिमरुतामाधिपत्यम् गर्भा स्मृताः पञ्चविपुंशस्तोमो देवस्तदमिदर्भागोदिबृहस्पदेधिपत्यगुं समेते द्विषस्मृता चतुष्टोमस्तोमो यावानाम् भागो स यावानामाधिपत्यम् प्रजास्तदा चतुश्चत्वारि पुंशस्त्वमरुभूनाम् भागो विश्वेनाम् देवानामाधिपत्यम् भूतम् निशामान्तज्ञस्तुतन्तयस्त्रिवंशस्तो महेकयास्तु पद प्रजाधीयन्त प्रजापतिरधिपतिराधेत् त्रितुभिरस्तुपद ब्रह्माधृत्यः ब्रह्मणस्पतिरधिपतिराधेत् पञ्चभिरस्तु पद भूतान्यदृपजन्त भूतानाम् धिपजराधेत् सप्तभिरस्तुवद सप्तरिणयोऽ सृज्यन्त धाताधिपजराधे नवभिरस्तुवद पितरो सृज्यन्ताधिरधिपज्ञादेकादशभिरस्तुवदत्तवो सृज्यन्तात्तवोऽधिपदिराधे त्रयोदशभिरस्तुवद मासा असृज्यन्त संवत्सरोऽधिपजराधे पञ्चदशभिरस्तुवद क्षत्रम सृजतेन्द्रोऽधिपजराधे सप्तदशभिरस्तुपद पशमोऽ सृज्यन्त रस्तु परिहोद्रार्यापृज्यहोरात्रे अधिपदीयामेकविंशत्यास्तु वदेकशभा पशमासृज्यन्त वर्षणाधिपजराधे त्रया विवंशत्यास्तु वदक्षत्रा पशमासृज्यन्त पाषाधिपजराधे पञ्चविंशत्यास्तु वदारण्या पशमासृज्यन्त भायुरधिपजराधे सप्त विविंशत्यास्तु वद्या वा पृथिवी ज्ञैता रुद्रा आदित्यानुव्यायम् ते गामाधिपत्यमाधेर् नवगयो निर्त्यास्तु वद वनस्पदयोसिर्यम् जलोमाधिपतिराधेरेगत्र्यकुंसलास्तु वद प्रजा असिर्यम् दयावाधाञ्चायावाधाञ्चाधिपत्यमाधेत्रयस्त्र्यगुशलास्तु वद भूतान्यजाम्य प्रजापर्यः परभेष्ट्यधिपदिराधे साया प्रथमाव्यौशन्तरस्याञ्चरति प्रविष्टा रथोर्जजाननमगजित्रे त्रयम् महिमानः सजन्ते छन्दस्पदे उडसापेऽपि शाने समानै्यो निमनसञ्चरन्ति सूर्यपत्रे विजरत प्रजानते एतम् क्रण्वाणे अजरे स्य पन्था मनुजस्त्रागुस्तजो धर्मासो अजो विजामेकारक्षत्यो व्रजमेका रक्षति देव यूनाम् चतुष्पामा अभवद्या तुलीया यज्ञस्य पक्षाविषया भवन्ति गायत्र्यम् दृष्टुभम् जगदेम द्रष्टुभम् निजम् पञ्च षड्धाता विदधा विदयस्वत्पञ्च पञ्च तासा भजन्ति प्रमेण लोपा विकृतगोपसानाः त्रिविंशत् स्वसा उपयन्ति निष्कृतगुङ्कभामुञ्चमानाः विस्तम्बदे कवय प्रजानते मध्ये चन्दनः परिणन्ति योनिष्पदे प्रतिमञ्चने न होरात्रिदेवी घोर्यस्य व्रतानि पश्यन्ति पदमो जायमाना नानारूपा माधुरस्या उपस्थेः एकाष्टकादपदादप्यमाना जानगर्भम् महिमानमिन्द्रम् तेन दस्योद्व्यदहन्त देवाहन्तासुरा नाम अनानुजामनुजाम् वामकर्तसत्यम् वदन्त्यम्मिच्छातमस्य तु मदो यथा योजमन्यावो अन्यामधिमा प्रयुक्तान् मम तु मदो विश्ववे आष्टप्रतिष्ठामपि दद्धिराधम् भोजातमस्य मदो यथा योजमन्यावो अन्यामदिवा प्रयुक्ता पञ्चव्युष्पेरि पञ्चदोहागाम् पञ्चलान्मे मृदवो न पञ्च दिशः पञ्चदशेन कृताः स मानमोर्धेनभिलोकमेकम् गतस्य गर्भ प्रथमाव्यौषुष्यपा व्यैकामभिमानम् विभक्ति सूर्यस्यैकाचरस्थितेन धर्मस्यैका च वितैकान्निगच्छति या प्रथमा व्यौच्छत्साधेनुरभवज्ञमे सा नः पयस्पति युक्ष्मोत्तरामुत्तरादुः समा शुक्रिण मानवः विश्वरोपास बले रग्निकेतुः समानवत्सर्गस्व पश्चमाना बिभ्रते जलामजल जरा उषागाः धूनाम् पत्नीः प्रथमेकमागा गन्धान् नेत्रेण नेत्रेण प्रजानाम् एका सती बुधौ गाव्य चेञ्जलय अग्ने जाताम् प्रणुदानः पत्रान् प्रत्यजाताञ्जातवेदोऽनुदस्प अस्मेवना अहेणम् तव स्याकम् सर्वम् त्रिवरोध उद्भिदे सहसा जाताम् प्रणुदानः पत्रान् प्रत्यजाताम् जातवेदोऽनुदस्व अधिना ब्रोहितुमनस्य मानो वयज्ञस्याम प्रणुदानस्य पत्ना चतुश्चत्वारिपुंशस्त्वमवचत्वा ग्रहिण पुंशोडशस्त्वमवोज ग्रहिणम् पृथिव्या छन्दो परिवश्चन्दश् शम्भोश्चन्दः परिभोश्चन्द आच्छन्दनश्चन्दो व्यजश्चन्द सिन्धुश्चन्दस्य मुद्रछन्दस्थलिनछन्द सञ्जन्द बृहच्छन्द रथं तरञ्छन्दा निकारिरन्दाभ्रज्छन्द स्रष्टुप्छन्दो द्रष्टुप्छन्दः प्रगुच्छन्द्रगुच्छन्दः काव्युवञ्चन्द प्रदपञ्च च्छन्दो क्षरपण्डिच्छन्दो विष्ठाल पञ्गिच्छन्दः क्षुरो समिद्धः शुक्राहुतः तम् ता भद्राधिर्क्रतुः भद्राते अग्नेष्वनेकसन्द्रग्घोरस्य सतो विष्णस्य नयत्ते सोजिष्टमसावन्तस्मानस्तनुविरे भद्रन्दे अग्नेशिन्ननेकमुपाकारो कृते सूर्यस्य रुदृशे दृशेण तया चित्रोः क्षितम् दृशारूपेण सैन्यकेन तु विदत्र अस्मेष्ट देवागुण्डायजिष्ठस्वस्ते अगलब्धो गोपा उतनः परस्पाग्नेतदेवद्यः स्वस्तितो दिवो हे यथाय यत्सेव न प्रशस्तम् परस्मासु द्रविणम् चित्रम् यथा होतन्मनुषो देवजाता यज्ञेभिः सूनो दहसो एवानो अद्य समनासमानानुसन्नग्नवृशतो यक्षि देवान् अग्निमेडे पुरोहितज्ञस्य देवमर्तिजम् होतारम् रत्रधातमम् ्रतः युष्मा कोते निषादः मरुतः स्वर्गापुरुक्षासकमानुषेभदः सान्तपनामनिरामादैष्टवः पतेहारस्तेऽभिरग्ने ज्येष्ठः श्चिवेदम् वेदवर्तमान् वयस्फानमे मनोभव स्त्यध्वम् भागमेतम् गृहमेधेयम् मरुतो, मरुतो युरध्वम् भिप्रगाय अत्यासोनरे मरुदस्पञ्चो लक्षो नेऽहेष्टाशिषमोनप्रक्रीडिरः प्रयोधाः प्रेषामध्वे भूमि शुभे ते क्रीडय प्राजलक्ष्मय स्वरम् मरहितम् परयन्तधूतयः उपक्वरेण शोतन्दिकोषा उपबोधते अश्वाघुतमक्षता मधुवम् न वर्तते अज्ञमाज्ञकम् भवेम विश्वदाहवन्त विश्वतिम् अज्ञवाहम्बुप्रजम् तकम्भिरस्वम् नेषु अज्ञकम् हव्यायोढवे इन्द्रायमेत्रमिन्दम् विश्वरस्पयेन्द्रह्न्नो विश्वकर्मण हविडा वार्धा विश्वकर्मण हविडावर्धनेन ओ